नारायणीय 21, मीटर वसंत मीटर् वसनतिलकं मध्योद्भवे भुव इलावृदर्षे गौरी प्रधान वनता जनमभाजी शर्वे मंत्रुदिस्पा संघर्षात्मक संश्रये त्वाम् भद्राश्वनामक इलावृदपूर्ववर्षे भद्रश्रवोभिऋषिभिपरिणूयमानम् कल्पान्तगूढनिगमोद्धरणप्रवीणम् ध्यायामि देवहयशीर्षतनुं ध्यायामि दक्षिणगदे हरिवर्षवर्षे प्रह्लादमुख्य पुरुषैः परिषेव्यमाणम् उत्तुङ्गशान्तधवलाकृतिमेकशुद्धज्ञानप्रदं नरभरिं भगवन् भवन्तं वर्षे प्रतीचिलललितात्मनिकेतुमाले लीलाविशेषललितस्मितशोभनाङ्गं लक्ष्म्या प्रजापति सुतैश्च निषेव्यमाणं तस्याः प्रियाय धृतकामतनुं भजे रम्ये स्युतीचि खलु निवर्षे तद्वर्षनाथमनुवर्यसपर्यमाणम् भक्तैकवत्सलममत्सर हृत्सुभान्तम् मत्स्याकृतिम् भुवननाथ भजे भवन्तम् वर्षम् हिरण्मय समाह्वयमौत्तराहमासीनमद्रिधृतिकर्मठ कामठाङ्गम् संसेवदे पितृगणप्रवरोर्यमायं तं त्वां भजामि भगवन् परचिन्मयात्मन् किञ्चोत्तरेषु कुरुषु प्रियया धरण्या संसेवितो महिदमन्त्रनुदिप्रभेदैः दंष्ट्राग्रहृष्टखन पृष्ठगरिष्ठवर्ष्मा त्वं पाहि विज्ञनुदयज्ञवरासमूर्ते यां यां दिशं भजति किं पुरुषाख्यवर्षे संसेविदोहनुमदा दृढभक्तिभाजा सीताभिराम परमाद्भुतरूपचारी रामात्मकः परिलस्सन् परिपाहि विष्णो श्रीनारदेन सह भारदखण्डमुख्यायस्त्वं साङ्ख्ययोगनुदिभिः समुपास्यमानः आकल्पकालमिह साधु जनाभिरक्षी नारायणो नरसखः नारा परिपाहि भूमन् पाक्षर्करूपमयि शाल्मल इन्दुरूपं द्वीपे भजन्ति कुशनामनि वह्निरूपं क्रौञ्चेम्बुरूपमथवायुमयं चशाके त्वां ब्रह्मरूपमयि पुष्कर नाम्नि लोकाः सर्वैर्ध्रुवादिभिरुडु प्रकरैर्ग्रहैश्च पुच्छादिकेष्वयवेष्वभिकल्प्यमानैः त्वं शिंस्युमारवपुषा महदामुपास्य सन्ध्यासुरुन्धिनरकं मम सिन्धुशायिन् पादालमूलभुवि शेषतनुं भवन्तं लोलैककुण्डलविराजिसहस्रशीर्षं नीलाम्बरं धृतहलं भुजगाङ्गनाभिर्ज्युष्टं भजे हरगदान् गुरुगेसनाथ सर्वत्र गोविन्दनाम सङ्कीर्तनं गोविन्द गोविन्द